धुष्टं oh, नष्टिष्टिः oh. <laughs> <laughs> <laughs> <laughs> sagavangavilochine jagavadi magnish mithashriniki matsalya matsalya arthavartsumadiram sankhi jananaktini hey madhushta sutam pandita atmaikamishvasi ॐ अमृतेश्वरि नमः ओम् अमृतेश्वरि ॐ अमृतेश्वरि नमः त्वा गणपतिगुम्ह वामहे कुङ्कहीनामुपमश्रवस्तमम् ज्येष्ठराजम् ब्रह्मणाम् ब्रह्मण पत आनशृण्मोतिभिस्तीदसादनम् महागणपतये नमः प्रणो देवी सरस्वती वाजेभिर्वाजिनीवती Triyabatu Vāthivinamah So you will chant from the beginning till uh, number 8. That's what we learned. You uh, will chant it only once this time. Then you will uh, le uh, learn the 9th one. And after that, then uh, Sunita has to go. Then we will uh, practice the 8th one one more time. Then we can do individual practice. Okay? Thank you, Hari. Thank you. So sure. you'll we'll start with uh, from the beginning you'll we'll all chant together one still all the way till 8 okay ready 1 2 3 मे श्लोकस्य आवश्य मे श्रोत्रंश ओं तिष्ठ मे सहस्रो चरातम आत्मा च मे सनुमे कर्मच मे वर्मच मे rani samestani samne parukam siddham sattani samukha पत्यं चे मनुष्ये मस्य मे प्रभश्च मेमाचले महिमाचले च महिमाचली च रमाचलं च रमाञ्चमे जगद्वाचने जगश्चे श्च मे पुरातञ्च मह्यं चेत् पञ्चमे सुभृतञ्चमे भविष्यश्च मे सुञ्चमे पतञ्च मरुद्धं च मरुद्धिष्टिष्टिष्टमे मधु मिष्यतिश्च मे मे शंशमे प्रयञ्चमे भगवच्छयश्च मे मस्य जनूषष्टमे भगच्छमि चल्यं चाशमे वर्दाशमे दर्दाशी चन्द्रमश्चे शनू विश्वं च मे मे च मे मह्य नृचन् च मे सुमेक तु प्रकमे नृचन् लयलय च मविरचन च नृचन् मृदुम च नृचले रामयन्तले जीवातु च नृचन् दीर्घायुवं संमे नृचन् अमृत्तम प्रेमतरि च नृचन् सहयन्तले सुदिनं च नृचमे पुरक् चमेये सुवन्दान सुद्रता चनेयस्य मे रददसि चनेन श्रुद्रिष्यन महाशिषये मुनिष्यति तक्नी च चतती चर्मे श्रीक्षेत्रे नृत्यमे जयचनुत्रं समऔषधित् समवदे द्रायितेन पुसं गोदानमेव उपशिष्येति यत् सिद्धं कृतं प्रबुद्धं चनेय शने पूर्णे पूर्णे चिनन्दनेयतु dan te gun dharma ta dharma ta sameti कस्ष्था प्रिटिश्टाव् heute ्पर्वाद्विनुष्पादाओ being र्षुपादा न्याम् । करना तरमेस्व मेरें इर फ्रुपिे पार्वाद्वीन।डता थिंगे üद्प तरमेस्गे पुरिशंये नंस स्थितंडता थि प्ल actfps त prepuftuft ok kak we д een miroon kसEMazhati euh tu da should mark upette riy यदुत्तमे ग्राम्याने वक्त्वा बन्धुतेन हिनेन कल्पितां हिचितनं मेवेति भूषितं न हि बुद्धिस्तने वत्त्नो वत्त्ने कार्यम च मिह कथमस्ति भवेमस्य इह कश्चन मे यत्समने इन्द्रश्च नोमश्च इन्द्रेन्द्रम इन्द्रश्च नोषासन इन्द्रश्च नो बृहस्पतिश्च मेन्द्रश्च मेन्द्रस्य मे वरुणश्च म इन्द्रश्च मे दुश्चम इन्द्रश्च मे नौष्टम इन्द्रश्च मे मरुणश्च मे विश्वेच्छन्ति देवा इन्द्रश्च मे ऋषिश्चम इन्द्रश्च मे ज्यौषम इन्द्रश्च ऋषश्चम इन्द्रश्च मे मूर्धाम इन्द्रश्च मे अधु्यावश्चिवशी प्रति प्रस्थानश्च मे शुक्रच्छमेणश्च मे वै वस्तु पश्च नर्यान्य वैश्व भगवदेव दुखं <sweak> काम्पेत् द्रोणकले <laughs> <kaikki> <laughs> लेट् रीड् लण्ट् नम्बर् नैन् स्टार्टिङ्ग् नान् विल् टर् टु दे ह् देश्व आगनिस्च, आगनिस्ट आगनिस्ट मे अग्निश्च मेश्च मे अग्निश्च मे घर्मश्चेर्कश्च मे अग्निश्च मे घर्मश्च मेर्कश्च मे अग्निश्च मे घर्मश्च मे कर्ष मे अग्निश्च मे घर्मश्चे अर्कश्च मे सूर्यश्च मे घर्मश्च मे अर्कश्च मे सूर्यश्च मे प्राणश्च मे धर्मस्य मे कस्य मे पूर्यस्य मे प्राणस्य मे धर्मस्य मे अर्थस्य मे विद्यास्य मे प्रहंसामे मे सूर्यस्य मे प्राणस्य मे श्वमेधस्य मे सूर्यस्य मे प्राणस्य मे ममनिन्दहने चने सूर्यस्य प्राणस्य मेश्वमेधस्य मे पृथ्वीचमे प्राणस्य मेश्वमेधस्य मे पृथ्वीचमे प्राणस्य मेश्वमेधस्य मे पृथ्वीचमे ी च मे दितिश्च मे दितिश्च मे पृथिवी चितिश्च ी चिष्टिश्च मे दितिश्च मे द्यौश्चौश्च मे दि तिश्च मे द्यौश्च मे स्वक्वरीरङ्गुलयो ौश्च मे षत्वरी रङ्गुलयो दिशश्च ओके द्वितिश्च ङ्गुलयो दिशच दितिश्च मे द्यौश्चि मेरीरङ्गुलयो श्च मे द्यौश्च मेरि रङ्गुलयो श्चिष्ठमे द्यौश्च मे चक्वरी रङ्गुलयो द्विषश्च मे श्च मे घर्मश्च मे अर्कश्च मे सूर्यश्च मे प्राणश्च मेश्वमेधश्च मे पृथिवी च मे दितिश्च, में दितिश्च में श्चे <cin> अग्मेः जाद्छूलाई प्छीजब्ध ग्रीवी जामेः फिल्दिर्ट्पूलाई जामेः थाद्धूलाई जामेः त estásब दूं you मैः जामेर will anybody want to try this on their own? I can try. Okay, go ahead. श्च मे धर्मश्च मेखश्च मे सूर्यश्च मे प्राणश्च मे श्वमेधश्च मे पृथ्वी च मे तिथिश्च मे तिथिश्च मे दौश्च मे शश्वरीरङ्गुलयो दिशश्च मे किं ग्निश्च मे घर्मश्च मे मेकश्च मे सूर्यश्च मे प्राणश्च मे स्वमेधश्च मे पृथिवी च मे दितिश्च मे दितिश्च मे द्यौश्च मे शक्वरीरङ्गुलयो दिशश्च मे अग्निश्च मे घर्मश्च मे अर्कश्च मे सूर्यश्च मे प्राणश्च मेष्व मेधश्च मे पृथिवी दितिश्च मे दितिश्च मे द्यौश्च मे शक्वरीरङ्गुलयो दिशश्च मे अग्निश्च मे घर्मश्च मेऽर्कश्च मे सूर्यश्च मे प्राणश्च मे श्वेभश्च मे पृथिवी च मे दितिश्च मे दितिश्च मे द्यौश्च मे शब्बरीरङ्गुलयोतिषश्च I can go go next. Okay, go ahead. <Rach shr Senior> highest highest highest okay, not okay? ahead. Diti-chame, not okay. अर्काश्चमे अर्कश्च मे अग्निश्च मे घर्मश्च मे अर्कश्च मे सूर्यश्च मे प्राणश्च मे अश्वमेधश्च मे पृथिवी च मे दितिश्च मे दितिश्च मे द्यौश्च मे शक्वरीर अङ्गुलयो अग्निश्च मे घर्मश्च मेर्कश्च मे सूर्यश्च मे प्राणश्च मेश्वमेधश्च मे पृथिवी च मे दितिश्च मे द्युतिश्च मे द्यौश्च मे शक्वरीरङ्गुलयो यज्ञेन कल्पन्तामृच्छमे यज्ञेन कल्पन्तामृच्छमे यज्ञेन कल्पन्तामृच्छमे तामचमे स्टोमस्यमे तामचमएतोमच्छमे तामचमएतोमच्छमे तोमस्यमेययजुस्यमे तोमस्यमेययजुस्यमे सोमस्यमेययजुस्यमे यजुस्यमे दीक्षाचमे यजुस्यमे दीक्षादनिदिचमे यजुस्यमे यजुस्टमे दीक्षार्तमे यज्ञस्य मे दीक्षाचमे तपश्च मरुदुष्टमे दीक्षाचमे तपश्च न मम मरुदुष्टमे दीक्षाचमे तपश्च मरुदुष्टमे यज्ञस्य मे दीक्षाचमे तपश्च मरुदुष्टमे श्च मे व्रतं च मे होरात्रयोृष्ट्या योर्दृष्ट्या तपश्च मरुतुश्च मे व्रतञ्च मे घोरात्रयोदृष्ट्या ऋतुश्च मे व्रतं च मे होरात्रयो ओर्भृष्ट्या बृहद्रथन्तरे ऋतुश्च मे व्रतञ्च मेहोरात्रयोदृष्ट्या बृहद्रन्तरे ृथुश्च तुछु। मे व्रतञ्च मे होरात्रयो दृष्ट्या बृहद्रन्धुत्तरे बृहद् रतम् भक्न्धरे बृहद्रतं व्रतञ्च मे होरात्रयो ओर्वृष्ट्या बृहद्रथं च मे ऋतुश्च मे पञ्चमो पञ्चमे होरात्रयोर्दृष्ट्या बृहद्रन्तरे च बृहद्रे तरे होरात्रयो पञ्चमे अहो अहो ृष्ट्या अहोरात्रयोर्वृष्ट्या बृहद्रथन्धरे रात्रयो वृष्ट्या बृहद्रेड्बडी वर्ड् अहोरात्रयो वृष्ट्यानौन्स् दौण्ड् बिफोर् दोरा वृतञ्च मे The the the the thing is that, uh, uh, I is is... that that A A not pronounced very okay, I'll you to do that one more time. Okay, so I just want make sure you got to the words, so. you got words. When say extend the me, then the I is okay. So यो ओर् वृष्ट्या बृहत्र संन्तरे च मे यज्ञेन कल्पेदा ोरात्रयोहत्रज्ञेन कल्पेताम् प्रतञ्च मे होरात्रयो वृष्ट्या बृहत्र यज्ञेन कल्पेताम् You just extend the A, that's all. Vratamcha me horatrayo. You don't say Vratamcha me horatrayo. Then you, you have to not extend the A. Vratamcha me horatrayo. Okay. Vratamcha me horatrayo. The next one will automatically follow. Vratamcha me horatrayo. Or Vristya prasatrasansarecha me horatrayo. Let's uh, try the the the the second second part, okay, uh, we, um, second part okay, okay, okay? from we... till till all the way till the end. So end, do this one more time, ho ratrayo Or brishtya दि एण्ड् फ़ोर् लेट् डू दिस् वन् मोर् ho ratrayo इट् नोट् वृद्धम् इट्स् व्रतम् ओके इट् सम्बडी सैङ्ग् वृद्धं व्रतं च मे this is like you know satya savitri vartam and all that vartam is there okay vrutam means covered okay avrutam and vrutam means covered ratam means, means the devadam uh, you take right no so vratam pratam chame okay so let's try the second part okay i'll say once you guys repeat twice यज्ञेन कल्पन्ताम् वृक्ष मे साम च मे स्तोमश्च मे यजुश्च मे दीक्षा च मे तपश्च ऋतुश्च यज्ञेन कल्पेताम् यज्ञेन कल्पन्तामृच्छ च मे सोमश्च मे यजुश्च दीक्षा च मे प्रपञ्चमरुतुश्चे प्रपञ्च मे होरात्रयो दृष्ट्या कल्पेना यज्ञेन कल्पन्ता सोमश्च मे यजुश्च मे दीक्षा च मेतश्च मे च मे होरावर्धुतर्ये च मे यज्ञेन कल्पेनां हरि यज्ञेन कल्पन्तामृच मे सामच मे सोमश्च मे यजुश्च मे दीक्षा च मे तपश्चम ऋतुश्च मे व्रतञ्च मे होरात्रयो ओर्भृष्ट्या बृहद्रतन्तरे च मे यज्ञेन कल्पेतांड् नमश्वाय ऐ केन् ट्रै हरि यज्ञेन कल्पन्तां श्च मे सामचमे स्तोमश्च मे यजुश्च मे दीक्षा च तपश्च तपश्चमृतश्च मे तपश्चम ऋतुश्च मे तपश्चम ऋतुश्च मे होरात्रयो ओर्भृष्ट्या बृहद्रतन्तरेत मे यज्ञेन कल्पेताम् यज्ञेन कल्पन्ताम् वृश्च मे साम च मे सोमश्च मे यजुश्च मे दीक्षा मे तपश्च मरुतुश्च व्रतं च मे होरात्रयो ओष्ट्या बृहद्रतं यज्ञेन okay. कल्पन्ता च मे तपश्च ऋतुश्च मे व्रतञ्च मे होरात्रयोर्वृष्ट्या कल्पेताम् इटर् बट् इन् कल्पं तां वृक्श्च मे ताम च मे सोमश्च मे यजुश्च मे दीक्षा च मे तपश्च मे व्रतं च मे होरात्रयोर्दृष्ट्यारे च मे यज्ञेन कल्पेताम् कल्पन्तां ऋक् च मे कल्पन्तां ऋक् च मे सो कल्पन्तां ऋक् च मे ीक्षा च मे तपश्च मे वृतं च मे होरा ृष्ट्वा बृहद्रन्थरे च मेताम् व्रतं च मेन् बृहद्रथान्तरे ्रतं व्रतं व्रतं वृतं मीन्स् यज्ञेन कल्पन्ताम् मृत्य मे साम च मे स्तोमश्च मे यजुश्च मे दीक्षा च मे तपश्च ऋतुश्च मे व्रतञ्च मे होरात्रयोर्दृष्ट्या बृहद्रथन्तरे यज्ञेन कल्पेताम् So let us try this whole paragraph together, um, we will do it two times, and then uh, we will go back and try the 8th Anuvaga, okay? Ready? One, two, three, three. Agnes chame, dharmas chame, kas chame, sunyat chame, pranas chame, shvamedhas chame, पृथिवी च मे दितिश्च मे दितिश्च मे द्यौश्च मे शक्वरीरङ्गुलयो दिशश्च मे यज्ञेन कल्पन्तामृच मे साम च मे सोमश्च मे यजुश्चे मे होरात्रयो दृष्ट्या मृहत्र अन्तरे ल्पे वन् मोर् टै वन् टु त्री अग्निश्च मे घर्मश्च मे कृतश्च मे सूचयश्च मे प्राणश्च मेष्वश्च मे पृथिवी च मे धृतिश्च मे धृतिश्च मे द्यौश्च मे शक्गीरङ्गुलयोगिषश्च मे कल्पन्तामृतोमश्चे अगाद्च्यमे टampaṣPI अगाद्च्यमे ब्रन्त्च्यमे पूरा थयोर्म् ब्रस्त्याम् र 요�ख्च्यावर्धध्रध अंत्रे चमे एक्झेन पल्पはは त स इत्व बार्द्च्यमे तोचेरण को JUST आड़त्ब्सने कोद genes we'll do that too we'll repeat once together and then we'll try individually okay? Ready 1 2 3 सिह्मश्च मे बर्षिश्च मे वेदिश्च मे धिष्णश्च मे शुषश्च मे चमसाश्च मे रावाणश्च मे स्वनवश्च न उपनवाश्च मे दिशणे च मेणश्च न आग्ने निर्धणनैं जुछंच्छंच्छंच्ंच्छंच्ंच्ंचंच्छंचंच्ंच्ंच्ंच् 성।्चंच्चंच्नच्ंच्ंच्फंच्ंच्ंच् पोड़त चर्ड़त चंच्भश्चंच्छंच्Н Cुछ तो फ्याद्ब्स चंछ्टर本ष mmC ilya stars So who wants to try it on their own, the eighth uh, paragraph l if can go, okay, go ahead इत्मश्च मे बर्हिश्च मे वेदिश्च मे धिष्ण्याश्च मे उचश्च चमसाश्च मे ग्रावाणश्च मे स्वर्वश्च चम, उपर्वाश्च मे धिषवणे मे द्रोणकलशश्च मे वायव्यानि च चम आधवनीयश्चम आग्नी च मे हविर्धानञ्च मे गृहाश्च मे सदश्च मे पुरोडासाश्च मे पचताश्च मे बभ्रुथश्च मे स्वगाकारश्च मेरि गुड् Same thing, Puroda, Shah, Aash, Chameh, okay? Okay. Agni, Dhan, Chameh. So, slower it sounds good, better. Because you'll get time to extend and go up and down a little more. Okay. Good. Who wants to try next? Okay. मे बर्हिश्च मे वेदिश्च मे दिश्नियाश्च मे सृचश्च मे चमसाश्च मे ग्रावाणश्च मे स्वरवश्च म उपरवाश्च मे विषमणि च मे द्रोणकलशश्च मे वायव्यानि च मे आग्ने ईद्रञ्च मे सदश्चमे, मे गृहाश्च मे स्वगाकारश्चमे. मे पुरोडाशाश्च मे पचताश्च मे ववृतश्च मे स्वगाकारश्च मेरि गुड् बोश्च मे बृह च मे वेदिश्च मे तिष्णयाश्च मे स्फुतश्च मे चमसा मे ग्रावाणश्च मे स्वरवश्च मपरवाश्च मे त्रिषवणे च मे द्रोणकलश्च मे वायव्यानि च मे भीदत्वश्च म आधवनीयश्च ृ्याश्च मे तदश्च मे पुरोडो पुरोडाश्च मे पतताश्च मे व्यप्रथय वृक्षयश्च मे स्वकाकारश्च मे वेरि गुड् कपल् आफ् तिङ्ग्स् गृहाश्च मे हविर्धाने गृहाश्च मे ओके गृहाश्च मेड्वान् पुरोडाशाश्च मे पुरोडाशाश्च मे पचताश्च मे वबुधश्च okay. मे अवबृधश्च मे पचताश्च okay मेश्च श्च मे बहिश्च मे वेदिश्च मे भीष्मीयाश्च मे सुजश्च श्च मे बर्हिश्च मे वेदिश्च मेष्णयाश्च श्च मे वायव्यानि चूदृश्चिङ्ग् गृहाश्च गृहाश्च गृहाश्चमे सदश्च मे पुरोडाशाश्च पुरोडाश्च पुरोडाश्च अल्गो हरि ओकेमश्च मे बर्हिश्च मे भेदिश्च मे दिष्णियाश्च मे श्रुचश्च मे चमसाश्च मे ग्रावाणश्च मे स्वरवश्च उपरवाश्च मे दिशवणे च ूतभृच्चम् आधवनीयश्चम आग्नी च मे अविर्धानञ्च मे गृहाश्च मे सदश्च मे पुरोडाशाश्च मे पचताश्च मे वभृधश्च मे स्वघाकारश्च मेरि गुड् इद्मश्च मे बर्हिश्च मे वेदिश्च मेदिष्णीयाश्च मे श्रुच मे चमसश्च मे चमसा चमसाश्च मे ग्रावाण ग्रावाणश्च मे स्वरावश्च स्वरवश्च मे ग्रावाणश्च मे स्वरवश्चम उपरवाश्च मे ओके चमसश्च मे चमसा उपरवाश्च मे दिशवणे च मे द्रोणकलशश्च मे वायव्यानि च मे पूटभृच्चम आधवनी याधवनी यश्चम आग्निद्रञ्च मे हविर्धानञ्च मे गृहश्च मे सदश्च गृहाश्च मे सदश्च मे पुरोडा पुरोडाशा आश्च पचता पचता पचताश्च मे वाचतावृथश्च मे पचताश्च मे ववृथश्च मे स्वागाकारश्च मे स्वगाकारश्च मे नोट् स्वागाकारश्च मे स्वगाकारश्च मे स्वगाकारश्च मे Yeah, I can read it. Today, I think I'm very tired, that's why. <laughs> OK, yeah, because it's much easier to read from there. Because otherwise, in English, you have to know how to exactly say it, because you have Correct. to know the dot is, and dash is, and accent is, and things like that. It's a little difficult. Yeah. yeah. I'll get the transcript text. Yeah, that's much easier. Yeah. Okay, so I think uh, we did the 8th uh, uh, one and uh, now and then 9th one, right? So, so we can probably stop here and then start individual practice with 9th one next week. Any questions? Whatever it takes, whatever it takes. Okay, then we'll do 3 Lokaha Samasthaha and stop here for now. Om. Oh. रि